ब्रह्ममुरारि सुराचितलिङ्गं ब्रह्ममुरारि सुराचितलिङ्गं निर्मलभास्कर शोभितलिङ्गं जनमनि दुःखविनाशनलिङ्गं तं प्रणहामि सदाशिवलिङ्गं ब्रह्ममुरारी देवमुनि प्रवरार्चितलिङ्गम् देवमुनि प्रवरार्चितलिङ्गम् देव कामविनाशनकारणलिङ्गम् रावणदल ं प्रणमामि सदा शिवलिङ्गम् ब्रह्मसुतालिङ्गम् सर्वसुतम् <laughs> सुले पितलिङ्गम् सर्वसुगन्धिशुले पितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् सिद्धसुरासुरवन्दितलिङ्गम् तं प्रणमामि सदाशिवलिङ्गम् ब्रह्म महामणिभूषितलिङ्गम् स्वर्णमहामणिभूषितलिङ्गं नागप्रवेष्टितशोभितलिङ्गम् दश सुयज्ञविनाशनलिङ्गम् तं प्रणमामि सदा शिवलिङ्गम् चन्दनदे पितलिङ्गम् कुकुम चन्दनदे पितलिङ्गम् पङ्कजहार सुशोभितलिङ्गम् सञ्चितपापविनाशनलिङ्गम् तं प्रणमामि सदा शिवलिङ्गम् देवगणर्जित शोभनलिङ्गम् देवगणर्जित शोभनलिङ्गम् देव भावन भक्ति सुके बललिङ्गम् भास्कर कोटलि प्रभाग प्रणमामि सदा शिवलिङ्गं ब्रह्म हरिसुराचितम् दलोपरिशोभितलिङ्गम् अष्टदलोपरिशोभितलिङ्गम् सृष्टिजहारजकारणलिङ्गं कष्टदरिद्रविनाशनलिङ्गं तं प्रणमामि सदा शिवलिङ्गम् जितलिङ्गम् सुरगुरु सुरगणपूजितलिङ्गं सुरगुरु सुरगणपूजितलिङ्गं परमपदम् परमा जनलिङ्गं तं प्रणमामि सदा शिवलिङ्गम् ब्रह्म मुरारि सुराचितलिङ्गम् ब्रह्म मुरारि सुराचितलिङ्गं ब्रह्ममुरारि सुराचितलिङ्ग